सर्वान् नृपांस्तान् प्रसमीक्ष्य कर्णो धनुर्धराणां प्रवरो जगाम उद्धृत्य धनुरुद्यतं तत् सज्यं चकाराशु युयोजबाणान् दृष्ट्वा सूतं मेनि रे पाण्डुपुत्राभित्वानीतं लक्ष्यवरं धरायां धनुर्धरागकृतप्रतिज्ञामत्यग्निसोमार्कमथार्कपुत्रम् दृष्ट्वा उतं द्रौपदी वाक्यमुच्चैर्जगाद नाहं वरयामि सूतम् सामर्षहासम् प्रसमीक्ष्य सूर्यम् तत्याजकर्णस्फुरितम् धनुस्तत् एवम् तेषु निवृत्तेषु क्षत्रियेषु समन्ततः चेदीनामधिपो वीरो बलवानन्तकोपमः दमघोषसुतो धीरः शिशुपालो महामतिः धनुरादायमानस्तु जानुभ्यामगमन्महीम् तथो राज महवी जरासंधो महाबल धनुष्याशत तस्थ गिरीवाचल है